मुद्गलपुराणम् खण्डम् फोर् गजाननचरितम् अध्यायम् एय्टीन् श्रावणशुक्लचतुर्थी व्रतकथनम् श्रीगणेशाय नमः दशरथ उवाच श्रावणेवरदायाश्च माहात्म्यं वदविस्तराद न तृप्यामि कथां श्रुत्वा ब्रह्म प्रदाम् प्रभो वसिष्ठ उवाच अङ्गदेशे पुरं श्रीमच्छततारम्बभूवः राजाराज्यं चकाराश्वसेन संज्ञोऽपि तत्र हि धर्मेण निधियुक्तेन नानादानपरायणः देवविप्रातिथिप्रेप्सो बभूवादिपराक्रमी नानाव्रतपरो राजा यज्वा तेजस्विनां वरः शस्त्रास्त्रायः पृथिवीं सर्वां जिज्ञे बलसमन्वितः सार्वभौमः सविख्यातस्त्रिलोकी कीर्तिकारकः वशे चक्रे राज्यं सेवकायिन राज्यम वशम भूतल स चकार तदोकस्माज्वरस्त सपन्नो दिदा ज्वरेण पीड़ितद्रा न चालभत नानोपयांकारा सौ ज्वर बभूवन एवं वर्षे गूर्णे सोस्ति चर्मशेषि अत्यदुखिद राज विललापा विषेण देह पून्मीपति जगाम सहसा तत्र देवलो योगिसत्तमः तं दृष्ट्वा प्रणनामाधपूजयामास बान्धवैः भुक्त्वा तृप्तं जगादेदं वचनं साधुमार्गविद अश्वसेन उवाच धन्यं मे जन्मकर्मापि पिता माताव्रतादिकम् अधुना सफलं दानं येन ते दर्शनं मुने ज्वरेण पीडितोत्यन्तं विषपाने महामुने तत्परोहं प्रपश्याम्यागतं त्वां योगिसत्तमृतोहं विषपानेनात्महत्यां न लभे कदा तव दर्शनमात्रेण मुक्तो यास्यामि धाम तद एव मुक्त्वा रुरोदापि ततस्तं देवलो मुनिः उवाच भावगम्भीरसर्वशास्त्रार्थतत्त्वविद देवल उवाच राज्ये नष्टं त्वदीये यच्चतुर्थी संज्ञिदं व्रदं तेनत्वं त्वं रोगयुक्तोऽसि मृदो गच्छसि नारके च दुःपदार्थदं पूर्णं सर्वादौ सम्मदं परं न चेदं चेद्फलैर्हीनं कर्म सर्वं भवेन भवेन्नृप त्वया यच्च कर्म नाना पुण्यात्मकं महत चतुःपदार्थहीनं तच्चतुर्थी महायोगी चतुर्थी व्रत संश्रुतां तदब्रवीद अश्वसेन उवाच अहोव्रतस्य माहात्म्यं संश्रुतं परमाद्भुतम् अधुना वदमाहात्म्यं गणेशस्य महामुने देवल उवाच गणेश्वरस्य माहात्म्यं मया वक्तुं न शक्यते उपाधिना युधं राजन्वदिष्यामि स्वरूपकम् असितान्मे पितुर्वक्त्राच्छ्रुतं तत्ते वदाम्यहम् सर्वसिद्धिकरं पूर्णं ब्रह्म योगप्रकाशकं पुराहं तपसायुक्तो भवंस्तत्र समागतः जयघीषव्यो महायोगी शैव जगो बभौ मया सुसत्कृतो योगी संस्थितः पूजितस्तुतः ममाश्रमेण किञ्चिन्मा वदत्सोऽपि महायश तिहन सलोक्य मनसा ध्यानादि अकर्म कारक स्म देहरक्षणत ध्यानाशून्य भ्रष्ट नस्म हीन स्म तोगीस्वूप तद तम गृह त्यक्वा गदस सतत्रैव के जले मदीयचिगंज्ञा सौ अहोक नगेणागत योगी सतम तापस मैकाशे त्यक्त्वा ततस्तं तत्राहमगमं स्वर्गमण्डलं तत्रापि जैगीषव्यश्च मया दृष्टो महामदे एवं नानाविधैर्मार्गैः स्वर्गेषु गतवानहं मया तेषु महायोगी दृष्टः सम्पूजितोमरैः तदो कस्मान् महायोगी सोऽन्तर्धानं चकारः तद्दृष्ट्वा सिद्धशङ्खांश्चापृच्छं थैक्कथितं नृप ब्रह्मलोके गदसोऽपि तत्र तेन गतिर्भवेत् ततोऽहं केदसंयुक्तस्वाश्रमं पुनरागमम् तत्रापि गृहमध्ये सौ मया दृष्टो महायशः संपूज्य प्रणदो भूत्वा वदं तारयस्व तारयस्वमहायोगिन् संसारान् मां कुशिष्यकं चलनायां समयोक्तं दयया दयानिधे जैगीर्षव्य उवाच हिंसात्मकं कुरुष्व त्वं कर्ममायत्नधारकः ब्रह्माहमिधि बोधेन शमी शमपरो भव यदाज्ञावशगं सर्वं वरुतते तं तेन योगी त्वमेवेह भविष्यसि न संशयः जैगी शैव्यश्चैवमुक्त्वा तत्रैवान्तरधीयत अहम् तत्र समासीनो हिंसाम् त्यक्त्वा तथा भवम् तदस्मपितर सर्वे महत् कुर्वन् तिरोदनम् अहो कर्म परित्यज्य देवलो न अस्मान् कः प्राज्ञो निराधारावयं कृतः देवलेनन सन्देहः क्षुधा विष्ठास्तुशायुधाः तान् दृष्ट्वा दुःखितोऽहं वै कर्म कर्तुं समुद्यतः मया दृष्टा ओषधयो महत्कुर्वन् द्विरोदनम् अस्मानहो भयं दत्त्वा देवलक्रौर्यमाश्रितः निर्लज्ज पुनरेवासौ चेदयिष्यति दुर्मदिः तदोऽहं नितरां खिन्नो शुभ यत्रैव सङ्गडाद विचार्य स्वहिते सकृतशमीदमपरो भवम् सर्वाभयस्वभावेन कर्मणा योगसेवया क्रमेण सहजे योग्यहम् ब्रह्मणि परो भवम् तत्र स्वाधीनतां दृष्ट्वा शान्तिहीनो भवम् पुनः अगमम् पितरं तत्र योगीन्द्र वन्दितं स्तुतं तत्रासिदम् प्रणम्यैवापृच्छं ब्रह्मसनातनं योगशान्तिप्रदं पूर्णं ततो मां सोऽब्रवीध्वजः असित उवाच संयोगाद्विद्धिपुत्रत्वं स्वसं वेद्यात्मकात् किल चतुर्विधं समुत्पन्नं तत्यजस्वसमाधिकम् योगे न ज संयोगो दृश्यदे योगिभिः कदा संयोगायोगयोर्योगो योगशान्तिप्रदो मदः भजस्वगणराज्यं त्वं तदर्थं नित्यमादराद सदा योगस्वरूपं तं शान्धिदं योगिनोऽ ब्रुवन् संयोगेयं गकाराख्यो नकाराख्यस्त्वयो तयोर्योगे गणाधीशो ज्ञातव्यो विबुधैः सदा युक्त्वा ददौ मन्त्रं मह्यमेकाक्षरं परं गणपत्यः प्रसन्नात्मा पिधा गणपं भजन् ततस्तं प्रणिपत्यैव गदोऽहं स्वाश्रमे नृपा गणेशं पूजयामिस्मा स्म ध्यात्वा जपरो भवं तदस्वल्पेन कालेन शान्तिं प्राप्तोऽहमेव च योगी वन्द्यो भवं राज्यं तथापि गणपं भजे गदे वर्षे समायादो गणेशो भक्तवत्सलः तुदसम्पूजितस्तत्र मया हृष्टेन चेदशा महोदरः कृत्वा स्वानन्दके धाम्नि गदो ब्रह्मपदिप्रभुः उक्त्वा दशाक्षरं मन्त्रं ददेवं अन्तर्धाय स्वमात्मानं देवलस्वाश्रमे गमद तदस्स राजशार्दूलो गणेशभजने रतः तत्रादौ श्रावणी प्राप्ता वरदा या चतुर्धिका तां चकार जनैः सर्वैः पुरवासिभिरादराद उपोषणसमयुक्तपञ्चम्यां पारणे रथः तदोदाहविनिर्मुक्तो ज्वरहीनो बभूवः जनाः सर्वे च लोकाध्यायिर्हीनाजादास्तदद्भुतं तदस्ते न मही पृष्ठे विख्यातं तद्व्रतं कृतम् शुक्लकृष्णभवं चक्रुर्व्रतं सर्वे धरातले आरोग्यादिसमयोक्ता हृष्टपुष्ठा जनाः बभुः व्रतस्य पुण्ययोगेन पुत्रपौत्रधनान्विताः पुत्रे राज्यं परित्यज्य राजा शान्तिपरायणः सस्त्रीक एकान्दे स्वोभूतभजद्गणनायकम् अन्दे स्वानन्दगो राजा ब्रह्मभूतो बभूवः क्रमेण सर्वे लोका वै ब्रह्मभूता बभूविरे एवं व्रतस्य माहात्म्यं सर्वसिद्धिप्रदायकं कथितं ते महाराज पुनःशृणुकथानकम् गुर्जरे पापः कर्माकः क्षत्रियो दुर्बलो भवद बाल्यात् प्रारभ्य दुष्टात्मा पाप पापकर्मपरायणः स्त्रीमांसमधिरासक्तो जनानां च पश्योस्तदा वधे रथो गुरुं चैव मारयामास मन्दधीः गुरोर्द्रव्यं गृहीत्वा स वन गच्छ बभूवः एवं नानाविधं पापं चकार नित्यमादराद एकदा ज्वरयुक्तः स बभूवक्षत्रियाधमः अत्यन्तं व्याकुलो जादो देहशुद्धिं न चास्मरद दैवयोगेन शुक्लासा सुसमागदा चादूर्थी तत्र तेनैवानं जलं भक्षितं न च पञ्चम्यां तेन किञ्चिद्वै भक्षितं त्वन्नमादराद रोगहीनो बभूवापि पुनः पापं समाचरद निधनं प्राप्तं कालन निधनमारा तम ने सगता दुष्ट संगृह्य गणेशाब्रमूतम प्रचक्रि अव्रतजेन पुण्यन क्षत्रि यय स्वानंदम किंपन ज्ञा कृपाज एवं नानाजनाद्याश्च चतुर्थीव्रतपुण्यतः ब्रह्मभूता मया वक्तुं न शक्यास्ते बभूविरे इदं श्रावणगायाश्च नरः पठेन्नरः माहात्म्यं शृणुया चेद्वा स सर्वं ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते श्रावण शुक्लचतुर्थी व्रतकधनं नामाष्टादशोऽध्यायः ॐ